प्रसह्यबन्धने बद्ध्वा प्रशासिष्येव सुन्धराम् एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ततो जलविहारार्थं कारयामास भारता चैलकम्बलवेश्वानि विचित्राणि महान्ति च सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च तत्र नानागाराण्यनेकषः उदकक्रीडनं नाम कारयामास भारत प्रमाणकोट्यां स्थलं किञ्चिदुपेत्यः भक्ष्यं भोज्यं च पेयं च लोष्यं लेह्यमथापि उपपादितं नरैस्तत्र कुशलैचूदकर्मणि न्यवेदयंस्तत्पुरुष धर्तराष्ट्राय वैतदा ततो दुर्योधनस्तत्र पाण्डवानाः दुर्मतिः गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः एवमस्त्विति तं चापी प्रत्युवाच युधिष्ठिरः तेरथेर्नगराकारैः देशजैश्च गजोत्तमैः निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह उद्यानवनमासाद्या च महाजनम् विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् उद्यानमभि पश्यन्तो भ्रातरः सर्व